हरि ओम् श्रीजगदम्बिकायै नमः अथ श्रीमद्देवी भागवतमहापुराणे तृतीयस्कन्धे सप्तविंशोऽध्यायः व्यास उवाच हीनाङ्गीं वर्जेत् कन्यां कुष्ठयुक्तां वृणाङ्कितां गन्धस्पुरीत हीनाङ्गी विशालकुलसम्भवां जासन्ध्यां केकरां काणिं कुरु पां बहुरोमशाम् सत्यजेद्रोगिणीम् कन्यां रक्तपुष्पादिनाङ्किताम् क्षमां गर्भतमुद्भूतां गोलकाम् कन्यकोद्भवां वर्जनीया सदाचयता सर्वपूजादिकर्मसु अरोगिणीं स्वरूपाङ्गीम् सुन्दरीं वृणवर्जिताम् एकवंशस्य मद्भूतां कन्यां सम्यक् प्रपूजयेत् ब्राह्मणी सर्वकार्येषु चया थ्रे लाभा वैशवश्योथ मता वा शूद्रवशजा ब्राह्मणे ब्रह्मजा पूजा राज्यवंशजा वैश्यग्रीवर्गजूज चतस पादसंभव कारूभि च वंशोथा यथाग्यं प्रपूजेत नवरात्रिधान भक्तिपूर्व सदैव अशक्तो नियमम् पूजाम् कर्तुं चेन्नवरात्रके अष्टम्याम् च विशेषेण कर्तव्यम् पूजनं सदा पुराष्टम्याम् भद्रकाले दक्षयज्ञविनाशिनी प्रादुर्भूताम् होरायोगिनी कोटिभितः अतोष्टम्याम् विशेषेण कर्तव्यम् पूजनं सदा नानाविधौ विधोपचारै च गह्नमाल्यानुलेपनै पायसैमी होमि ब्राह्मणा चोजन फलपुष्पोपहैश तो जगदंबिका उपवास नवरात्र व्रते पुनः उपोषण तय प्रोक्त यथोक् फलद नम सप्तम्याम नवम्यां भक्तिभातरात्र कर्ण फलम भगवती पूजना पूजाभिः चैव होमे च कुमारी पूजने तथा सम्पूर्णम् तद्व्रतम् प्रोक्तम् विप्राणाम् चैव भोजने व्रतानियानि चान्यानि दानान्य विविधानि च नवरात्र व्रतस्यास्य नैव तुल्यानि भूतवे धनधान्यपदम् नित्यम् सुखसन्तानवृद्धिरम् आयुरारोग्यदम् चैव सर्गदम् तथा विद्यार्थी वा पुत्रार्थी वा भवेन्न तेनेदम् विधिवत्कार्यम् व्रतम् सौभाग्यदम् शिवम् विद्यार्थी सर्वविद्याम् विप्राप्नोति व्रतसाधनम् राजभ्रष्टो पूर्वपो राज्यम् समवाप्नोति सर्वदा पूर्वजन्मन्यूनम् न कृतम् व्रतमोत्तमम् ते व्याधिनो दरिद्रा च भवन्ति पुत्रवर्जिताः वह््या च या भवेन्नारी विधवाधनवर्जिता तत्र कर्तव्य नेयम् नवरात्र व्रतं प्रोक्तं न येन भूतले स कथं विभवम् प्राप्य मोदते च तथा दिवि रक्तचन्दन सम्मी श्री कोमलैः बिल्पत्रगैः भवानी पूजितायेन येन स भवेन्द्र प्रतीक्षितौ नाराधितायेन शिवा दुःखातिहासुद्धिकरी जगद्वरा दुःखावृतय शत्रुयुतय च भूतले नु नन्दनीद्रो भवति ह मानव यं विष्णुरिन्द्रो हर पद्मज्योत वह्नि कुबेरो वरुणो दिवाकर ध्यायन्ति सर्वार्थ समाप्तिनन्दिता तं किं मनुषः न भजन्ति चण्डिकां त्वा स्वधा नाम मनुप्रभावै तृप्यन्ति रेव पितृ तथैव यज्ञेषु सर्वेषु मुदाहरन्ति यन्नामयुग्मं श्रुतिभिन्द्रा यस्येच्छया सृजति विश्वमिदम् भजेषु नानावतारकलनं कुरुते हरि च नूनं करोति जगते किल भस्म शम्भु तां शर्मदां न नु कथं मनुष्य नै कोऽस्ति सर्वभुवनेषु तया विहीनो देवो नरोत वेग किलवन्न गोवा गन्धर्व राक्षिषाय च न केषु नूनं यत्स्पन्दितुं भवति शक्तियुतो यथेच्छं तां न सेवेत कश्चण्डीं सर्वकामासदां शिवां व्रतं चतुष्टयम् भायपादकसंयुक्तो नवरात्र व्रतम् चरेत् मुच्यते सर्वपापेभ्यो नात्र कार्या विचारणा पुरा कश्चिद् वणिग्धीनो धनहीन सुदुःखितः कुटुम्बी च भवेत् कश्चित् कोसभे नृपसत्तमः अपत्यानि भवन्यस्य अभवन्त्युत्पीडितानि च भक्ष्यं भुङ्क्ते स्म कार्यकर्ता सौ फलत्यार्थ बुभुक्षितः कुटुम्बभरणम् तत्र चकाराति निराकुलः सदा धर्म रथशान्त सत्यवाक् क्रोधनश्च धृतिमान् निर्मदश्चानसूयनकः सम्पूज्य देवता नित्यम् पितृ नप्यतिथिं तदा भुञ्जाने पोषवर्गे च भोजनमणि एवं गच्छति काले वै सुशीलो नामतो गुणै दारिद्र्यातो द्वियं चान्दम् पप्रच्छाति बुभुक्षितः सुशील उवाच भवभूदेव कृताम् कृत्वा वदस्वाध्ये महामते कथं दारिद्र्य नाशस्य इति मे निश्चयेन वै धनै शृणामयि धने स्यामिति कुटुम्बभरणार्थम् वै पृच्छाम्ये त्वां विजोत्तमय पुत्रे सदस्तु मे बालो भक्ष्यार्थी रोदते भुजम् तावन्मात्रम् गृहे नान्नम् मुष्टिमेकाम् ददाम्यहम् विसर्जितो यतो गेहात् गतो बालो रुदन्मया अतो मे दह्यतेत्यर्थम् किम् करोमि धनम् विना विवाहोऽस्ति विवा सुधाया मे नास्ति वित्थम् करोमि किम् दशवर्षाधिकाय सुदानकालोऽपि अत्यलम् तेन शोचामि विप्रेन्द्र सर्वज्ञो सीतया निधि तपोदानम् व्रतम् किञ्चित् ब्रूहि मन्त्रम् जपन्व तथा येनाहम् पोषवर्गस्य करोमि द्विजपोषणम् तावन्मे स्याद्धनप्राप्तिनाधिकम् प्रार्थये किल सत्प्रसादात् कुटुम्बम् मे सुखितम् भवते प्रभवेदिह तत् कुरुष्व महाभागज्ञानेन परिचिन्त्यस उवाच इति पृष्ट तथा तेन ब्राह्मण संशितव्रतः उवाच परमप्रीत तम् वैश्यम् नृपसप्तम् वैश्यवर्य कुरुष्वाद्य नवरात्र व्रतं शुभम् पूजनम् भगवत्या च हवनम् भोजनम् तथा वेदपारायणं शक्ति तथा कुरुष्वाद्य यथाशक्ति तव कार्यम् भविष्यति एतस्मात् परम् किञ्चिद् व्रतम् नास्ति धरातले नवरात्राभिदम् वैश्य पावनम् सुखदम् तथा ज्ञानदम् मोक्षदम् चैव सुखसन्तानवर्धनम् चक्रो नाशकरम् कामम् नवरात्र व्रतम् सदा राजभ्रष्टेन रामेण सीताविरहितेन च किष्किन्धायां व्रतं चेतत्कृतम् दुःखा सुरेण वै तप्तेनापि रामेण सीता विधवन्धिना विधिवत् पूजिता देवी नवरात्रव्रतेन वै तेन प्राप्ताथ कृत्वा सेतुं हत्वा मनोदरी नाथम् कुम्भकर्णम् महाबलम् मेघनाथ नादं सुतम् कृत्वा भूपम् विभीषणम् पश्चात् अयोध्यामागत्य प्राप्यम् राज्यम् अकण्टकम् नवरात्रस्यास्य प्रभावेण विचामर सुखम् भूमि तले प्राप्तम् रामेण मिततेजसा व्यास उवाच इति विप्रवच श्रुत्वा स वैश्यस्थं द्विजम् गृहम् कृत्वा जगराह सन्मन्त्रम् मायाबीजाभिधम् ज्वजापे पर्या भक्त्या नवरात्रम् नानाविधोपहारै च पूजया मास सादरम् नवसंवत्सरम् चैव मायाबीजपरायणः नवमेवत्सरात्रे तु महाष्टम्याम् महेश्वरी अर्धरात्रे तु सञ्जाते प्रत्यक्षम् दर्शनं ददौ नानावरप्रदान च कृतककृत्यम् चकारतम् इति श्रीमद्देवी भगवती मा पुराणे तादृशसहस्र्याम् सहितायाम् तृतीयस्कन्धे देवी पूजा महत्ववर्णनम् नाम सप्तविंशोऽध्याय श्रीजगदम्बिकायार्पणमस्तु